ततस्तस्याम्बुदाभस्य भीमो रोषात्तु रक्षसः उत्क्षिप्या भ्रामयद्देहं तूर्णं शतगुणं तदा भीम उवाच वृथा मांसैर्वृथा पुष्टो वृथा वृद्धो वृथा मतिः वृथाद्य न भविष्यसि क्षेमद्य करिष्यामि यथावनमकण्टकं न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षसा अर्जुन उवाच यदि वामल्यसे भारं त्वमिमं राक्षसं युधि करोमि तव साहाय्यम् शीघ्रमेष निपात्यताम् अथवाप्यहमेवैनं हनिष्यामि मृकोदर कृतकर्मा परिश्रान्तः साधु तावदुपारमा वैशम्पायन उवाच तस्य तद्वचनं श्रुत्वा भीमसेनोत्यमर्षणः निष्पिष्यैनं बलाद् भूमौ पशुमारममारयत् समार्यमाणो भीमेन ननादविपुलं स्वनं पूरयं स्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः बाहुभ्यां योत्क्रयित्वा तम् बलवान् पाण्डुनन्दनः मध्ये भङ्क्त्वा महाबाहुः हर्षयामास पाण्डवान् हिडिम्बं निहतं दृष्ट्वा संहृष्टास्तेतरस्विनः अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम् अभिपूज्य महात्मानम् भीमं भीम राक्रमं पुनरेवार्जुनो वाक्यं। उवाचेदं रुकोदरं नदूरं नगरं मन्ये वनादस्मादहं विभो शीघ्रं गच्छाम भद्रं ते न नो विद्यात् सुयोधनः ततः सर्वे तथेत्युक् सह मात्र महारयु पुषव्याघ्र हिडिबा चक्षसी महाभारते आदिपर्व हिडिबवधपर्वण हिडिबवधेपंचाशदिककशतमोध्याय